गणेशपुराणं क्रीडाखण्डम् अध्यायं 122 अण्ड् ट्वेन्टि टु क उवाच सिंहासनस्थे देवेश मयूरेश्ये गणैर्वृदे गौतमाद्या मुनिगणाः प्रशशंसर्गुणेश्वरं ऋषयवूजुः येन शक्रो जितसङ्ख्ये न गैष्येषो धरातरे तस्य का गणनान्येषां सोऽपि युद्धजितस्त्वया रक्षिता बहवस्तस्मात् सिन्धोर्दुष्टात् सुरेश्वर गणानां सर्वलोकानामन्यथा जीवनं कथं क उवाच युद्धं तेषु वदत्वेव तत्कीर्तिं गिरिजाययौ आलिङ्ग्य प्राकपुत्रं युद्धलालसः तदशीघ्रं समायादो भर्गो देवं स स स्वजे उवाचेन्द्रादिभिर्देवैरसाध्यम् कृतवानसि परब्रह्मस्वरूपस्य चराचरगुरोरपि सर्वज्ञस्य धराधारोद्धरणे निरतस्यते महिमानं स्वरूपाणि ब्रह्माद्यानविदुःसुराः गौतमाद्याश्च मुनयशक्रिका तत्र नो भवेद् क उवाच युद्धं वदति देवेशे शिवेध पार्वतीजगौ नारदो मुनिवर्योऽसौ माधशृणुवचो मम बहवो वासराजादा अत्र स्थाने कदा शिवे मोक्षमेष्यति दैत्योऽसौ सिन्धुर्नष्टतमो नखे भविता मयूरेशस्य सुव्रते वासवाद्याजिदायेन नाशंस कथमेष्यति ज्ञाम् देहि गमिष्यामः पुनरेष्याम सत्वरम् कदा स्युःसिन्धुदैत्यात्ते देवाश्च मुक्तबन्धनाः दैत्यस्य मरणमादरः साध्यम् दृश्यदे मया क उवाच सुरार्षेर्वाक्यमाकर्ण्य प्रोचुस्तं ते गणास्तदा षडाननादयो वीरा नारदं देवदर्शनम् उद्दीपयन्तं तं देवं मयूरेशं सुरेश्वरम् आश्चर्यं नारदमुने सर्वज्ञस्यापि तेनख एतदर्थं समायादो निजधाम्नो भुवं विभुः अवाप्त सकलार्थोऽसौ मयूरेशोऽखिलार्थकृद अगुणस्य गुणेशस्य गुणक्षोभविधायिनः स्वरूपं किं न जानासि ब्रह्माद्यैरनिरूपितं मयूरेशस्य वीर्यं च भूभारोत्तारणैषिणः इन्द्राद्यवध्यानसुरान्निक् नदो बलशालिन अनंदकोटिब्रह्मायकन उत्पत्तिस्थिसंहारिणो जगदा क उवाची तदारतीन प्रोवाच नारद यदा द्रक्ष्यामि तं दैत्यं निगदं मुक्रिमागतं तदा सर्वं वचः सत्यमन्येकं नान्यधा क्वजिद निशम्येद्धं वचस्तस्य चुक्रोधस मयूरराड जगर्जक्रोध दीप्तोऽसौ नादयन भुवनत्रयम् दहन्निवस्त्रिलोकीं स शीर्णयन्पृथिवीमपि मेकगम्भीरया वाचा बभाण तं मुनिं तदा मयूरेश उवाच मान्योऽसि ब्रह्मपुत्रत्वात् सर्वज्ञत्वान्मुनीश्वर अतस्त्वाम् प्रभ्रवीम्यद्यमर्यादां परिपालयन् तव प्रसादाद्ब्रह्माण्डं प्राशयिष्येन्तकं क्षणाद भूगोलं न्युब्जदां न्येष्ये शोषयिष्ये बुधीनपि चालयिष्ये तथा मेरुं शृणुनारदसत्यामे प्रतिज्ञामद्य सर्वग हनिष्ये सिन्धुदैत्यं तं नात्रकार्या विचारणा क उवाच इत्युक्त्वा प्रययौ योद्धुं बर्ह्यारूढो विनायकः आहतु स्तं तदानन्दी भृङ्गचोभौ विनायकम् आवां युद्धं करिष्यावो नौ पश्यन्नौ रणकौशलम् इत्युक्त्वा वायुवेगेन गतौ तौ गण्डकीं पुरीं वीरभद्रो भूदराजो ययौ श्रुत्वा तयोर्गतिं तदा च कम्पे धरणी शेषो विह्वलतां ययौ ददृशुस्ते च चत्वारो दुर्गं दुर्गं सुरेश्वरैः पर्यङ्के सुखमासीनं सिन्धुं चाराण्यवेदयन् चत्वारपर्वताकारा गर्जयन्तो दिशो नभः वीरास्तव पुरीं व्यादा किं महासुर श्रुत्वेद्धं वचनं सिन्धुर्मग्नश्चिन्तार्णवेक्षणाद् दुर्गापि चिन्तया विष्ठा सा सोऽपि अधो मुखतया चोभौ दुःखं प्राप्तुरञ्चसा दुर्गा प्रोजे महाराजमयोक्तं नकृतं कृतं त्वया तस्येदं हि प्राप्तमिदानीं किं नु चिन्तया एवं वदति सा वाक्यं तावत् ते अनेकशिखरं तस्य सभामण्डपमाययुः उड्डीयसहसा क्रुद्धस्तु मण्डपे पञ्चमण्डपं सद्यः सबलेन महाबलः अङ्गणे तस्य खण्डानि पतितानि समन्ततः तप्तत्रयोऽपि देवीरा भृङ्गिणं समुपागतः युद्धावेशारुणमुखा ससैन्यं तं ग्रसिष्णवः दृष्ट्वा तत्कर्म ते श्रान्तु सिन्धुसेना ययः पुरः खड्गचर्मधनुर्माणकुन्दमुद्गरधारिणी घ्नन्तु घ्नन्तुमहावेगांश्चतुरो वीरपुङ्गवान् इत्युक्त्वा चतुरो हन्तुमागदा दैत्यसैनिकाः असंख्यादुभिस्ताुयुद्धात्रमा अन्म्वा जहिमह्येको बवद तदोभ तो मूलम युद्ध चुर्देन या रजोंधकार प्रकाशेना वलोकयन् शतकोडिहदा दैत्याश्चतुर्भिः संयुगे तदा असङ्ख्यादा महावीरान् बोधयामासुरोजसा गृहीत्वा पादयोस्ते तान् भ्रामयित्वा पुनः पुनः न महावीरास्ते भूमौ शतधापदन् शरैरास्त्रैश्च शस्त्रैश्च पादेन खरखादतः नाशिदा सर्वसेना सा दैदेयीरणमण्डले ततस्ते तद्गृकं गत्वा सिन्धुं पर्यङ्कसंस्थितं रणस्तम्भं समानिन्योर्धृत्वा केशेशु वेगदः ततः सिन्धुर्महास्त्रैः स चक्रे यूद्धम् तुतैः सह व्यसृजत्पन्नास्त्रं स भुजगैर्वेष्टितास्त्रयः गरुढास्त्रं च सहसा भृङ्गिणा मोचितत्क्षणाद् अग्न्यस्त्रे मोचिदेतेन पर्जन्यास्त्रं च सोऽसृजद वायुवस्त्रे मोजिदेतेन तेन पर्वतास्त्रं सदे सृजन् ततस्ते मल्लयुद्धेन योधयामासुरादराद नन्दीदु पादयामास मुकुडं दैत्यमस्तकाद भृङ्गीतु ताडयामास दैत्यं महारुषा वीरभद्रो ग्रहीद्भार्यां कचेतस्याध पश्यतः भूतराजो जघानैनं लत्तया वैरभावतः दुर्गानेत्रे निमील्यैव नापश्यतं तथा विधं निन्दी तस्य पपाल पपालनिजमन्दिरम् आवेशान्सिन्धुदैत्योऽपि वीरभद्रं पदे गृहीत मुष्टिनानन्दिनं हत्वा शिखामाक्रम्य भृङ्गिणः अपादयद्भूमितले भूतराजो मुमूर्च्छः मुकुटमस्तकेन्यस्य मुक्ताहारङ्गले तथा तुरङ्गवरमारुह्य शेषानाहूय सैनिकान् हनिष्येद्यमयूरे शमित्युक्त्वा युयधे पुनः जगर्जसहसा दैत्यो गर्जयन्विदिशो दिशः गदेषु देषु वीरेषु चतुर्षु वदत्सु दैत्यसेनायां सर्वेषां नाशनं कृतम् आनीतसिन्धुदैत्योऽपि रणभूमिं गणेश्वर अल्पसेनाचरैर्युक्तं मोचयैनं भवार्णवाद वयमेव कनिष्यामो नाज्ञासीत् तव विघ्नराट इति श्रीगणेशपुराणे क्रीडाखण्डे द्वा विशोत्तरशतमोध्याय ओम